ततस्तमासाद्य महा जनौघाः कुरु हा धर्म इति ब्रुवाणा भीताश्च सर्वेष्वमुखाश्च राजन् वरः कुरूणामधिपः प्रजानाम् पितेव पुत्रानपहाय चास्मान् सर्वान् हित्वा प्रयातः क्वनु धर्म राजः धिग्धार्तराष्ट्रम् सुन्दृशम् अनर्थमिच्छन्ति नरेन्द्र ये धर्म सतस्तवैवम् स्वयम् निवेश्या प्रतिमम् महात्मा पुरम् महादेव पुर प्रकाशम् शतक्रतु प्रस्थममेय कर्म हित्वा प्रयातः क्वनु धर्मराजः